नमस् सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्य करपत्रस्य पठनात् किञ्चित् वक्तुमिच्छामि ब्रह्मचक्रस्य विषये तर्हि अस्माकम् अस्तित्वम् अस्ति यतोहि परमपुरुषः अस्ति इति कृत्वा अस्माकम् अस्तित्वम् अस्ति अतः एव परमपुरुषः कृष्णः अस्मान् सर्वान् आकर्षयति सः कृष्णः इदानीं तत्र भूमिः अस्ति भूमेः धरणं केनचित् क्रियते सा सत्ता एव कृष्णः सूर्यः अस्ति सूर्यः अस्ति अतः तत्र भूमिः वर्तते भूमिः वर्तते तर्हि सूर्यः भूमेः कृते कृष्णः यतोहि सूर्यः भूमिं धरति इदानीं परमपुरुषः अस्ति इति कृत्वा सूर्यः अस्ति सूर्यः सूर्यस्य आधारः अस्ति परमपुरुषः अतः परमपुरुषः सूर्यस्य कृते कृष्णः इति एवं रीत्या वयं पश्यामः कार्यकारणभावमेवं रीत्या वयं पश्यामः चेत् अन्ततो गत्वा एका वर्तते यस्य यस्याः अस्तित्वम् अस्ति इति कृत्वा समग्रजगतः अस्तित्वं वर्तते तादृशसत्ता एव कृष्णः इति वयं वदामः वयं सर्वे जानीमः वा न जानीमः वा वयं सर्वे तु परमात्मानम् आधारीकृत्य एव वयं जीवामः अपि च वयं तस्य समीपे एव गन्तुं प्रयासं कुर्मः इत्युक्ते अस्माकं सर्वेषामपि गतिः वर्तते अस्मै अस्माकं सर्वेषु चलनक्रिया वर्तते वयम् इच्छामः वा आ, आ, न इच्छामः वा वयं सर्वे अवस्ते अवस्ते शुककारे। शुककारे प परमात्मानं प्रति अस्माकं प्रीतिभावः वर्तते न जानीमः तथापि वर्तते यदा अस्माकं सुखकाले सुखकाले वयं किं वदामः वयं वदामः परमात्मना सह मम सम्पर्कः एव नास्ति इति वयं वदामः यतोहि इदानीं सुखकालमस्ति मम मनः प्रसन्नः प्रसन्नं वर्तते अतः अहं वदामि यत् परमात्मना सह मम सम्पर्कः नास्ति इति वदामि परन्तु सः एव मनुष्यः यदा तस्य तस्य मनसि दुःखम् आयाति निम सः पृच्छति हे परमात्मा भवान् तु सर्वं जानाति किमर्थम् एवं करोति भवतः भवतां भा, भा, विहाय मम अन्य कोऽपि नास्ति भवन्तं विहाय मम अन्य कोऽपि नास्ति इति अपि वयं वयमेव वदामः मया यत्किमपि कृतं तद् क्षमस्व मम माम् उद्धर इति अपि वयं प्रार्थयामः खलु क्षमा क्षमां करोतु क्षमां मम सहायं करोतु इति अपि वयं प्रार्थयामः तर्हि परमात्मनः पूजकः पूजकाः अपि वयमेव परमात्मनः निन्दकाः अपि वयमेव परन्तु सर्वे तु परमात्मानम् आधारीकृत्य एव सन्ति ज्ञात्वा वा अज्ञात्वा वा सर्वे तत्र परमात्मानं प्रति सर्वेषां प्रीतिः वर्तते एव इदानीं तद् जगति ये जनाः सन्ति तत्र द्विविधविभक्ताः सन्ति बहवः जनाः सन्ति येषां मनः स्थूलं वर्तते स्थूलभावना वर्तते स्थूलात्मिका स्थूलात्मिकं वर्तते अपि च अन्ये कतिचन जनाः सन्ति येषां मनः सूक्ष्म सूक्ष्मं वर्तते येषां परमात्मनः विषये येषां ज्ञानमस्ति तत् प्राप्तुं ते परमात्मानं प्राप्तुं ते प्रयासमपि कुर्वन्ति अन्ये जनाः स्थूलविषयं प्रति आकर्षिताः भवन्ति तर्हि तत्र किं भवति इति चेत् पशुजीवनं व्यवहरन्ति परन्तु वयं पश्यामः चेत् सर्वेषां मनः मनः मनसि गतिः वर्तते सर्वेषां गतिः वर्तते ज्ञात्वा वा अज्ञात्वा वा गतिः जीवने गतिः अवश्यं वर्तते यदि गतिः नास्ति तदानीं मरणं जायते यदि कस्यचित् जीवस्य गतिः नास्ति तदानीं मरणं जायते तर्हि अत्र समाजे ये ये जनाः सन्ति तेषां सर्वेषां गतिः वर्तते अग्रगतिः वा भवतु अधोगतिः वा भवतु गतिः तु अवश्यं वर्तते येषां गतिः तत्र आध्यात्मिकचिन्तने येषां गतिः वर्तते तेषां परमात्मन परमात्मनः समीपं तेषां गमनं भवति येषां गतिः स्थूला वर्तते तदानीं तेषां परमात्मनः परमात्मा परमात्मातः दूरं तेषां गतिः भवति परन्तु सर्वेषु गतिः तु अवश्यं वर्तते सर्वेषु मनसि एका भावना वर्तते स्थूलभावना वा सूक्ष्मभावना वा वर्तते तर्हि तत्र सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे पृथगात्मानं प्रेरितारञ्च मत्वा ज्युष्टस्ततस्तेनामृतत्वम् एति तर्हि अस्मिन् श्लोके तदेव उक्तमस्ति तत्र ब्रह्मचक्रे सर्वे जीवाः भ्रमन्ति सर्वे जीवाः भ्रमन्ति तत्र वयं जानीमः सृष्टिचक्रे परमात्मा तत्र ब्रह्मचक्रे परमात्मा केन्द्रे वर्तते तर्हि परमात्मा एव ब्रह्माण्डस्य विश्वब्रह्माण्डस्य प्राणकेन्द्रः वर्तते प्राणकेन्द्रः वर्तते तर्हि तस्मात् परमात्मातः एव सर्वे प्राणं स्वीकुर्वन्ति तस्य तस्य तत्र ब्रह्मचक्रे ते सर्वे ब्रह्मचक्रधारायां ते सर्वे भ्रमन्ति अत्र तत्र केन्द्रे तु परमात्मा स्वस्वभावे वर्तते अपि च ततः यदा तत्र केन्द्रातीगाशक्तेः प्राधान्यं भवति भा, तदानीं जीवाः तस्मात् परमात्मनतः दूरं गच्छन्ति तर्हि केन्द्रातीगाशक्तिः इत्युक्ते शक्ति यदा तेषां विचारः स्थूलः वर्तते तदानीं तत्र परमात्मतः तेषां दूरगमनं भवति यदा केन्द्रानुगाशक्तेः प्राधान्यं विद्याशक्तेः प्राधान्यं भवति तदानीं तेषां परमात्मनः समीप समीपगमनं भवति तर्हि अत्र विद्याशक्ति अविद्याशक्ति द्वयोः साम्यावस्था नास्ति सामान्यतया साम्यावस्था नास्ति मनुष्येषु विद्याशक्ति अविद्याशक्तेः शक्तेः साम्यावस्था नास्ति साम्यावस्था अस्ति चेत् ते सर्वे अपि केन्द्रे परमात्मनः सह ऐक्यं प्राप्नुवन्ति साम्यशक्तिः नास्ति इति कृत्वा एव कदाचित् दूरागमनं कदाचित् समीपागमनम् इति भवति तर्हि इदानीं साम्यावस्था विद्याशक्ति अविद्याशक्ति अनयोः साम्यावस्था कथं प्राप्तुं शक्यते इति चेत् तत्तु केवलं साधनाद्वारा एव यदा वयं साधनां कुर्मः अपि च उचितकार्यं कुर्मः तदानीं तत्र ब्रह्मचक्रे केन्द्रे यः परमात्मा वर् वर्तते तस्य समीपं वयं गच्छामः यदा वयं साधनां न कुर्मः अनुचितकर्म कुर्मः तदानीं तस्मात् तत्र अस्माकं दूरगमनं दूरगमनं भवति तर्हि यः पुरुषः साधनं न करोति अपि च तत्र स्थूलविषयेषु भौतिकविषयेषु तस्य आकर्षणं व वर्तते स्थूलजडता जडतां प्रति स्थूलं प्रति आकर्षणं वर्तते तदानीं तस्य परमात्मातः केन्द्रतः दूरगमनं भवति यदी कोऽपि कोऽपि मनुष्यः वदति यत् अहं साधनां न करोमि परन्तु अहं सम्यक्तया जीवनं करोमि अन्यम् अन्यस्य कृते हानिं न करोमि अन्यं अन्यं प्रति कष्टं न ददामि इति एवं रीत्या सह चिन्तयति चेत् एवम् एवं, एवं रीत्या सः जीवनं जीवनस्य व्ययं करोति चेत् तदानीं तस्य तस्य परमात्मा परमात्मा यः केन्द्रे वर्तते तस्य पार्श्वे ते गच्छन्ति वा इति चेत् तथा नास्ति यदा ते साधनां न कुर्वन्ति केवलं जीवनस्य व्ययं कुर्वन्ति अन्यस्य हानिं सहजनैतिकतायाः पालनं कुर्वन्ति तदानीमपि तेषां पशुत्वं पशुत्वस्य प्रोत्साहनं भवति यतोहि मनः उपरि गच्छति अधोभागे गच्छति अतः यदा ते साधनां न कुर्वन्ति तदानीमपि अविद्याशक्तेः एव प्राधान्यं भवति अतः पशुतायाः एव प्राधान्यं भवति अनेन अधोगतिः भवति यदि साधनां न करोति पापं करोति तदानीं तु पशुतायाः अवश्यं प्रोत्साहनं भवति यदि पापं न कुर्व करोति पुण्यमपि न करोति साधनामपि न करोति तदानीं तु किं भवति तदानीं तदानीमपि तदानीम पशुतायाः प्रोत्साहनं भवति यतोहि साम्यावस्था नास्ति यावत्पर्यन्तं साम्यावस्था नास्ति तावत्पर्यन्तं पशुतायाः प्रोत्साहनं भवितुम् अर्हति अतः अत्र साधना अस्माभिः करणीया अनिवार्या अस्ति साधनां यदा वयं कुर्मः तदानीं विद्याशक्तेः प्राधान्यं भवति इत्युक्ते यथा अस्माभिः पूर्वमपि कदाचित् दृष्टं यत् यथा गृह ग्रिह, गृहम् अन्यं प्रति वयं ऋणरूपेण वयं ददामः कोपि टेनेण्ट् अस्ति सः तत्र एव वासं करोति बहुकालं पर्यन्तं वासं करोति तदनन्तरम् इदानीं वयं वदामः भवान् गृहात् बहिः गच्छतु इति वदामः चेत् सः गच्छति इदानीं मम कृते गृहम् आवश्यकं भवान् गच्छतु इति वदामः चेत् न गच्छति यतोहि सः बहुकालं तत्र एव वासं कृतवान् एवम् एवम रीत्या बहुकालपर्यन्तम् अविद्याशक्ति अस्मासु वासं कुर्वती अस्ति इति इति कृत्वा उचितव्यवहारः अस्ति चेत् पर्याप्तं नास्ति कदा अस्माकं मनः पतति इति वयं न जानीमः यतोहि अविद्याशक्तेः वासः अस्ति तर्हि अविद्याशक्तेः नाशः कथं कथं भवति विद्याशक्तेः प्राधान्यं कथं भवति इति चेत् तत्तु साधनाद्वारा यौवनश्च जीवन जीवनद्वारा एव भवति तर्हि अत्र ब्रह्मचक्रे सर्वे जीवाः भ्रमन्ति तत्र केषुचित् जागतिकभावना वर्तते केषुचित् भावात्मकभावना वर्तते परन्तु तेषां सर्वेषाम् अपि चलनं वर्तते येषु जागतिकभावना वर्तते इत्युक्ते आध्यात्मिकभावना नास्ति ते सर्वदा भ्रमन्ति अत्र भ्रमचक्रस्य परिधौ एव ते सर्वदा भ्रमणं कुर्वन् कुर्वतः भवन्ति कुर्वन्तः भवन्ति इति कृत्वा तेषां परमात्मानं प्रति अग्रगतिः न भवति परिधौ एव चलन्ति सर्कल् सर्कल् फ़्रेण्ड्स् मध्ये एव चक्रे सर्कल् मध्ये एव चलन्ति यतोहि ते प्रयासं न कुर्वन्ति यतोहि तेषां पशुव्यवहारः वर्तते अतः परमात्मनः समीपे ते कदापि न गच्छन्ति तर्हि तत्र युगपर्यन्तं जन्मजन्मान्तरं तेषां भ्रमणम् एवं रीत्या एवं एव प्रचलति यदा ते, ते अवगच्छन्ति यत् परमात्मा मम वर्तते अहं परमात्मा परमात्मनः अस्मि इति यदा ते अवगच्छन्ति तदानीं तेषाम् अग्रगतिः भवति यावत्पर्यन्तं तादृश अवगमनं नास्ति तदर्थं ते प्रयासं न कुर्वन्ति तावत्पर्यन्तम् अग्रगतिः न भवति तर्हि अत्र श्लोके किम् उक्तमस्ति प्रेरितारञ्च मत्वा ज्युष्टस्ततस्येन अमृतत्वम् एति यावत्पर्यन्तं ते चिन्तयन्ति ते पृथगात्मा वर्तते इत्युक्ते परमात्मा भिन्नसत्ता अहं भिन्नसत्ता इति एवं रीत्या यावत्पर्यन्तं तेषाम् अवगमनम् अस्ति तावत्पर्यन्तं केवलं ब्रह्मचक्रस्य परिधौ भ्रमणं भवति यदा अवगच्छन्ति यत् यद मम पृथक् अस्तित्वं नास्ति परमात्मा मम वर्तते अहं परमात्मनः अस्मि तदानीं किं भवति इति चेत् चक्रस्य ब्रह्मचक्रस्य परिधौ ते सन्ति ततः तेषाम् अग्रगतिः भवति प्राणके केन्द्रं प्राणकेन्द्रं प्रति तेषां गमनम् अग्रगतिः च अवश्यं भवति तदर्थम् अस्माकं जीवनस्य मुख्यविषयः अस्ति साधना तदर्थमेव अस्माकं जन्म भवति परमात्मनः लीला वर्तते यद् अन्ततो गत्वा ऐक्यं परमात्मना सह भवतु इति एव परमात्मनः इच्छा वर्तते तर्हि पुरुष मनुष्यः अपि च पशुः अनयोः पार्थक्यं तत्र अमुं विषयम् आधारीकृत्य एव भवति तर्हि यः मनुष्यः वर्तते सः जानाति तस्य सम्बन्धः परमात्मना सह वर्तते इति तर्हि परमात्मा एव मम प्राणः अस्ति परमात्मा मम आत्मा अस्ति परमात्मा मम सर्वस्वम् अस्ति इति सः जानाति यः मनुष्यः अस्ति परन्तु यः पशु पशुः अस्ति यः भौतिकविषयेषु यस्य आसक्तिः वर्तते सः सः अमुं न जानाति इति कृत्वा तस्य भ्रमणं सर्वदा सर्वदा जायते कदाचित् युगयुगान्तर युग युगान्तरम् युगा, युगा अनन्तरं जन्मजन्मान्तरं सः कदाचित् अवगच्छति यद् मम पृथक् नास्ति इति कृत्वा तदानीं तस्य ऐक्यं भवति इत्युक्ते अन्ततो गत्वा सर्वेषाम् ऐक्यम् अवश्यं भवति परन्तु कस्यचित् इदानीं भवति कस्यचित् जन्मजन्मान्तर अनन्तरं युगान्तरम् इति एवं तत्र जीवानां यात्रा प्रचलति तर्हि य यः यस्मिन् यस्मिन् मनसि आध्यात्मिकभावना जागरिता भवति यः साधनां करोति साधनां कर्तुं यः आरभते तर्हि सः सः सः पुरुषः सङ्घर्षं आरब्धवान् सङ्घर्षं कर्तुम् आरब्धवान् यः पशुजीवनस्य व्ययं करोति पशुजीवनस्य पालनं करोति तर्हि तेन पुरुषेण सङ्घर्षः न आरब्धः तर्हि साधनायाः मार्गे अस्माकं लक्ष्यम् इति चेत् तत्र पशुतः मनुष्य मनुष्यः वयं भवामः ततः साधनायाम् अग्रगतिः यदा भवति तदानीं मनुष्यतः वयं देवः भवामः देवस्थाने यदा वयं प्रतिष्ठां प्राप्नुमः तदानीं वयं परमात्मना सह ऐक्यं प्राप्नुमः यः पुरुषः साधनां न करोति तर्हि सः पशुजीवनं व्यवहरति पशुजीवने एव तस्य प्रोत्साहनम् अपि भवति तर्हि तस् तर सः तु सङ्घर्षः कदापि न करोति तर्हि एवं रीत्या तस्य जीवनं प्रचलति पुनः पुनः तस्य जन्ममरण जायते एवं रीत्या ब्रह्मचक्रे एव तस्य भ्रमणं जायते यदा तु पुरुषस्य अन्तश्चक्षुः उद्घाटितं भवति तदानीं तस्मिन् पुरुषे तस्मिन् मनुष्ये परमपुरुषस्य प्राप्त्यर्थम् इच्छा जागरिता भवति तर्हि परमात्मना सह तस्य प्रीतिभावः वर्तते भक्तिभावः वर्तते तर्हि तस्य पुरुषस्य विकासः भवति पृथगात्मानं प्रेरितारञ्च मत्वा तत्र अस्माकं जन्म परमात्मनातः एव अस्माकं जन्म जातः सः एव अस्मान् अत्र प्रेषितवान् अत्र भूमौ सः एव अस्मान् प्रेषितवान् तर्हि यावत्पर्यन्तं पृथक् अस्मि इति भावः वर्तते तावत्पर्यन्तं भ्रमणं जायते जायते जायते भ्रमणं सर्वदा जायते एतत् सर्वं तु परमात्मनः लीला वर्तते किमर्थं परमात्मना मां प्रेषितवान् इति प्रश्नस्य उत्तरम् अस्ति यद् तस्य लीला वर्तते यथा इदानीं वयं पश्यामः कश्चन शिशुः वर्तते सः बहु लघुः वर्तते सः एतावता चलनक्रिया क्रियां न आरब्धवान् तदानीं माता तु न वदति यत् शिशुः शयनं करोति स्म तदानीं माता तु न वदति आ आगच्छतु, आगच्छतु इति न वदति यदा बालकः यदा शिशुः प्रयासं करोति चलनार्थं तदानीं माता वद वदति आगच्छतु आगच्छतु आगच्छतु इति वदति एवं रीत्या यावत्पर्यन्तं मनुष्यः अत्र भौतिकविषयेषु व्यस्तः अस्ति अहं पृथक् अस्मि इति भावयति तावत्पर्यन्तं परमपुरुषः न वदति आगच्छतु आगच्छतु मम पार्श्वे आगच्छतु इति न वदति यदा मनुष्यः अवगच्छति यद् मम पृथक् नास्ति अहं परमात्मानं प्राप्तुम् इच्छामि यता इति इच्छा तत्र मोक्तुम् इच्छा जागरिता भवति तदानीं परमात्मा अस्माकं सहायं करोति सः प्रकट प्रकटी प्रकटीभूय अस्माकं सहायं करोति सः सहा वदति मम शिशुः आगच्छतु आगच्छतु आगच्छतु इति सः वदति तर्हि यदा एवं वदति चेत् तदानीं तत्र आगच्छतु आगच्छतु नाम किं कृत्वा मम समीपे आगच्छतु समीपे आगच्छतु प्रयासं करोतु करोतु भवान् पतति भूमौ पतति तथापि पुनः प्रयासं करोतु यतोहि तत्र साधनायां क्लेशः अस्ति यथा तत्र शिशोः कृते चलनक्रियायां क्ले क्लेशः अस्ति आदौ सः बहुवारं पतति भूमौ तथापि सः पुनः प्रयासं कृत्वा कृत्वा अग्रगतिं प्राप्नोति एवं यः साधकः वर्तते साधनायां तु सुलभतया साफल्यं न लभ्यते बहुवारं पतति तदानीं तत्र परमात्मा वदति चिन्ता मास्तु आगच्छतु आगच्छतु आगच्छतु इति तत्र परमात्मा प्रेरयति एतत् सर्वं तु तस्य लीला वर्तते परमात्मनः लीला वर्तते यदा साधनां कुर्मः तदानीम् आनन्दः लभ्यते अस्माकम् आनन्दः लभ्यते न केवलम् अस्माकम् आनन्दः परमात्मनः अपि आनन्दः लभ्यते यद् तस्य एकः शिशुः तस्य समीपे आगन्तुं प्रयासं करोति इति कृत्वा तस्य कृते अपि आनन्दः अस्ति आनन्दयः आनन्दस्य भावः पारस्परिकम् अस्ति परमात्मन तु परमात्मा तु सच्चिदानन्दस्वरूपः अस्ति तर्हि यदा मनुष्यः साधनां कर्तुं प्रयासं करोति तदानीं तत्र न केवलं तस्य मनसि आनन्दस्य भावः परमात्मा अपि आनन्दं प्राप्नोति यद् मम शिशुः प्रयासं करोति इति अतः साधना सर्वैः साधना करणीया एव अयमेव साधना एव वस्तुतः इयमेव परमपुरुषस्य इच्छा अपि तर्हि मनुष्यस्य कर्तव्यं किं मनुष्यस्य प्रमुखकर्तव्यं किम् इति चेत् परमपुरुषस्य इच्छानुसारं करणीयं परमपुरुषस्य इच्छानुसारम् अस्माकं व्यवहारः भवेत् तदानीमेव अग्रगतिः भवति परमात्मा इच्छति यद् वयम् आध्यात्मिकजीवने प्रवेशं प्राप्नुमः साधनां कुर्मः इति सः इच्छति यदि तदनुगुणं वयं व्यवहारं कुर्मः तदानीं साफल्यं साफल्यम् अवश्यमेव लभ्यते यदि कोऽपि पुरुषः अस्ति सः बहु शक्तिशाली वर्तते सः चिन्तयति यद् अहं यत्किमपि चिन्तयामि तदेव तथा एव भवति मम इच्छानुगुणमेव सर्वं भवति इदानीम् अहं किमपि इच्छामि मम पार्श्वे बहु वर्तते बहुशक्तिः वर्तते अतः इदानीं यत्किमपि अहम् इच्छामि तदनुगुणमेव सर्वं भवति इति सः चिन्तयति चेत् सः मूर्खः अस्ति यतोहि परमात्मनः तादृश इच्छा नास्ति चेत् तदानीं तादृशमनुष्यस्य इच्छायाः पूर्तिः कदापि न भवति यदा तस्य इच्छा यथा अस्ति तथैव परमपुरुषस्य इच्छा वर्तते तदानीमेव तस्य पुरुषस्य साफल्यं भवति अतः जीवने साफल्यं प्राप्तव्यं चेत् परमपुरुषस्य इच्छानुगुणम् अस्माभिः व्यवहर्तव्यं तत् इति चेत् परमपुरुषस्य इच्छा का इति अस्माभिः ज्ञातव्या परमपुरुषस्य इच्छा वर्तते यद् वयं सर्वे साधनं कुर्मः इति तस्य इच्छा तदनुगुणं व्य व्यवहारं कुर्मः चेत् तदानीम् अग्रगतिः अवश्यमेव लभ्यते तत्र नास्ति संशयः अतः अत्र अत्र सारांशः कः इति चेत् अत्र अस्माभिः साधना अध्येतव्या साधना अध्येतव्या पद्धति पद्धत्यानुगुणं साधना अध्येतव्या प्रतिदिनं साधना करणीया द्विवारं अथवा इतोपि अधिकं तदानीमेव अवश्यं मनः परिवर्तते मनः एकरीत्या न भवति कदापि तत्र परिवर्तनम् आयाति यदा यः पुरुषः यः मनुष्यः साधनां करोति सः स्वयं तस्य अनुभवं प्राप्नोति इति अत्र उक्त्वा वयमग्रे गन्तुं शक्नुमः अत्र कोऽपि प्रश्नः किञ्चित् अग्रे गच्छामः यत् क्षणम् okay, ओके अहं करोमि यक्षणम् तु एतावत् अत्र अस्मिन् जगति मनुष्याः कथं जीवेयु जीवेयुः इति विषयः प्रचलन् अस्ति तत्र okay. अस्माभिः दृष्टं यत् ओके अस्माभिः अस्मिन् किं दृष्टम् आसीत् इति थि, चेत् तत्र तत्र परमात्मनः लीला वर्तते यद् प्रत्येकं जीवात्मा परमपदं प्नुयुः इति एव परमात्मनः इच्छा वर्तते तदर्थं भक्तेः आवश्यकता वर्तते तत्र प्रीतिः प्रीतिभाव भावस्य प्रीतिभावः आवश्यकः वर्तते हृदि प्रेमभावः भक्तिभावः आवश्यकः अस्ति भक्तिं विना किमपि न लभ्यते केवलं यदि वयं स्तुतिं कुर्मः अथवा प्रार्थनां कुर्मः तेन इत्युक्ते यथा तत्र सरलाभगिन्या उक्तं तत्र पूर्वं इत्युक्ते तत्र स्तुतिं कुर्मः प्रार्थनां कुर्मः चेदपि किञ्चित् अग्रगतिः भवति इति उक्तवती किञ्चित् अग्रगतिः भवितुम् अर्हति किञ्चित् भवति परन्तु मनः इतोपि स्थूलं वर्तते अतः कदा अधोभागे पतति इति वयं न जानीमः इत्युक्ते यदा साधनां कुर्मः तत्र निश्चयेन अग्रगतिः भवति परन्तु केवलं स्तुतिं कुर्मः अथवा प्रार्थनां कुर्मः तदानीं तत्र किञ्चित् अग्रगतिः भवितुम् इति भाति परन्तु तत्र पुनः अधोगतिः कदा भवति इति न जानीमः यतोहि मनः मनः मनसि पक्वता न आयाति खलु स्तुतिं कुर्मः प्रार्थनां कुर्मः चेत् मनसि पक् पक्वता न आयाति तर्हि मनसि पक्वता नायाति चेत् पुनः कदा मनः अधोभागे पतति इति वयं न जानीमः यतोहि इदानीमपि पशुव्यवहारः वर्तते अतः सं सम्पूर्णतया मनसः परिवर्तनं भवेत् मनः शुद्धं भवेत् अग्रगतिः निश्चयेन भवेत् इति चेत् तदानीं साधना अवश्यं करणीया न तु प्रार्थना अथवा स्तुतिः ये तत्र योगनिष्ठजीवनमिति मार्गं न जानाति ता तादृशपुरुषः ताद्रिश्य तादृशमनुष्यः एतादृशस्तुति स्तुति स्तुतिं कर, करोति अथवा प्रार्थनां करोति परन्तु वयं तु जानीमः अस्माकं लक्ष्यं किम् इति कृत्वा अत्र साधकस्य जीवने स्तुतेः वा प्रार्थनायाः आवश्यकता नास्ति यतोहि तत्र निरन्तररूपेण परमात्मन सह ऐक्यं कथं प्राप्तव्य प्राप्तव्यम् इति वयं जानीमः साधनाद्वारा इति वयं जानीमः तदर्थं साधनायां वयं प्रयासं कुर्मः न तु स्तुतौ अथवा प्रार्थनायाम् इति अत्र उक्त्वा तर्हि किञ्चित् अग्रे गच्छामः किं सुचित्रभग्नि पठति अस्माभिः कर्मणां विवेकः कर्मफलं वहनीयः भवति तेभ्यः पलायनार्थं कोऽपि उपायः नास्ति प्रार्थना ईश्वरस्य गुणानां प्रशंसा च करोति तर्हि निर्गम निर्गममार्गः कः निर्गमनमार्गः निर्गमनमार्ग निर्गमनमार्गः कः एकमात्रं मार्गं यत् दुष्कर्माणि त्यक्तुं येषां परिणामाः प्रकृतिप्रभावेण बद्धाः भवन्ति यत् परिणामं प्राप्नोति तस्मात् पाठं गृहीत्वा केवलम् एकमात्रः मार्गः अस्ति दुष्कर्मणां त्यागः येषां दुष्कर्मणां परिणामाः अन्तेन प्रकृतिप्रभावे बध्नान्ति बध्नन्ति दुष्कर्मणां परिणामैः यद्दुःखं कश्चन अनुभवति तस्मात् पाठं पठित्वा दुष्कर्मणां त्यागः करणीयः यथा उदाहरणत्वेन हस्तः अग्नौ निमग्नः चेत् तस्य दाहः भवत्येव एतत्तु भवेत् एव प्रार्थनापि तादृश प्रार्थनापि तादृशं परिणामं निवारयितुं न शक्नोति दाहं निवारयितुम् एकमात्रमार्गः अस्ति यत् कश्चन हस्तम् अग्रौ न निमज्जयेत् अथ तथैव यदि दुष्कर्माणि न सन्ति तर्हि दुष्टपरिणामानां प्रश्नः न उद्भवति अत्र एतत् तस्ति ईश्वरस्य स्तुति वा गुणगानं वा कृत्वा कोऽपि कर्मफलस्य अनुभवं तस्य कृते न भवति इति नास्ति यत्कर्मं कृतं तत्तु अनुभोक्तव्यमेव तत्र प्रशंसा ईश्वरस्य प्रशंसागुणं वा स्तुतिं वा कृत्वा किमपि लाभः न भवति तर्हि तत् ततः निर्गमनमार्ग किम् इति पृच्छा पृच्छामः चेत् मार्गः अस्ति यत् दुष् दुष्टपरिणामं यः वा कष्टपरिणामः यः भवितुं न इच्छति तर्हि तादृशकर्मः एव न करणीयं तादृशकर्माणि कृत्वा तु सः दुष्टपरिणामम् अपि आवाहनमेव करोति अतः दुष्टकर्माणि यदा त्यजामः तर्हि तादृशफलस्य अपि अनुभवं न भवति कष्टपरिणाम कष्टफलमपि अनुभवं न भवति यदा दुष्टकर्माणि कुर्मः तर्हि तत्र एकरूपेण प्रकृतेः बन्धनमपि भवति यद् भगिनी उक्तवती अविद्यामायाः बन्धनमपि भवति तत्तु अस्ति एव पूर्वम् अपि वयं दृष्टवन्तः कदाचित् प्रकृतेः नियमस्य पालनं न कृत्वा कथं प्रकृति दण्डयति इति तादृशं तु बन्धनम् अधिक दृढतरं भवति तत्र मनसि गतिः अपि पुनः स्थूलं प्रति गच्छति अतः दुःखमपि जनाः अनुभवन्ति परन्तु ततः पाठं स्वीकृत्य एतादृशकर्मं न करणीयम् इतोपि ततः परिणामस्य फलः अपि तादृशं न भवतु इति चिन्तयित्वा अग्रे कश्चन मार्ग तादृशदुष्टकर्माणां मार्गः त्याग उदाहरणमस्ति यदा अग्निः अग्नौ यदा वयम् अस्माकं हस्तं अग्नौ समीपं नयामः चेत् तत्र तु हस्तस्य दाहः तु परन्तु वयं यदा अस्माकं हस्तस्य किमपि हानिः न भवतु दाहं न भवतु इति चिन्तयामः तत् दाहं निवारयितुं तत्र मार्गः कः इति चेत् हस्तौ अग्नौ हस्तं सम्य अग्नौ समीपं नयामः तर्हि दाहमपि न भवति तादृशम् एव दुष्कर्माणि यानि सन्ति तस्य तु अनुभवं भवति एव तदनुभूत्वा एव तस्य किमस्ति दुष्परिणामः समाप्तिः भवति तत्तु निवारयितुं न शक्नु कोऽपि न शक्नोति परम् अग्रे तादृशम् अनुभवः पुनः पुनः तादृशम् अनुभवः न भवतु इति चिन्तनमस्ति चेत् ततः पाठं स्वीकृत्य तादृशं कर्माणि न करोति तदेव भगिनी हा हा बहु समीचीनं भगिनी धन्यवादः बहु सम्यक् तर्हि इत्युक्ते अत्र विषयद्वयम् अस्ति अत्र मनुष्याः अत्र द्विविधाः इत्युक्ते तत्र इत्युक्ते द्विविधा वयं विभक्तुं शक्नुमः तत्र केचन जनाः मानवधर्मस्य पालनं कुर्वन्ति केचन जनाः पशुधर्मस्य पालनं कुर्वन्ति ये जनाः मानवधर्मस्य पालनं कुर्वन्ति यथा वयं बहुवारं चर्चितं ते जनाः परमात्मनः मनसि प्रतिबिम्बस्य वर्धनार्थं प्रयासं कुर्वन्ति तदर्थम् आत्ममोक्षार्थं जगत्हिताय च ते प्रयासं कुर्वन्ति योगनिश्च जीवनस्य प्रत्येकं विषयं विषयस्य प्रत्येकं विषयस्य पालनं ते कुर्वन्ति ते सर्वे अपि परमात्मनः यन्त्रं भवन्ति यता परमात्मा इच्छति तथैव ते कुर्वन्ति एवं कुर्वन्ति चेत् ते कर्मफलात् तेषां मुक्तिः भवति कर्मफलात् कर्मफलबन्धनात् तेषां मुक्तिः भवति यतोहि ते ततः ते, ते कर्मणः कर्ता न भवन्ति पर् वयं जानीमः ये ये पशवः सन्ति ते तु तेषां कर्मणां ते कर्ता कर्तारः न सन्ति ते प्रकृतेः नियमानां नियमानुगुणं ते व्यवहारं कुर्वन्ति तेषां महत्तत्वस्य वर्धनं नासीत् येन ते अहमेव कर्ता इति अनुभोक्तुं शक्नुवन्ति ते सहजवृत्ति अनुगुणं तेषां कार्यं भवति प्रकृतेः अनुगुणं तेषां कार्यं भवति परन्तु यः मनुष्यः अस्ति यः साधकः अस्ति सः तु परमात्मनः यन्त्रं भवति यतोहि ते तत्र मानवधर्मस्य पालनं कुर्वन्ति पशुधर्मस्य अपेक्षया ते परमात्मनः इच्छानुगुणं व्यवहारं कुर्वन्ति अनेन किं भवति इति चेत् तेषां मनः वर्धते तेषां मनः अपूर्णतातः पूर्णतापर्यन्तं तेषां मनः वर्धते ते तु तेषां कर्मणां कर्तारः न सन्ति अतः ते नूतनकर्म कर्मफलानां नूतनसंस्काराणां जननं न भवति एतादृशव्य एतादृशव्यवहारेण नूतनसंस्काराणां जननं न भवति अन्ततो गत्वा तेषाम् ऐक्यं भवति परमात्मना सह यावत्पर्यन्तम् अहमेव कर्ता अहमेव कर्ता अहमेव भोक्ता इति अनुभवः अस्ति तावत्पर्यन्तम् अस्माकं पृथक् अस्तित्वम् अस्ति तावत्पर्यन्तं बन्धनात् मुक्तिः न भवति तर्हि बन्धनात् मुक्तिः कर्मफलात् मुक्तिः कथं भवति इति चेत् मानवजीव जीवनस्य पालनेन एव कर्मफलात् मुक्तिः भवति न तु स्तुतिधा द्वा, द्वारा अथवा द्वारा कर्मफलात् मुक्तिः न भवति इति अत्र उक्तमस्ति तर्हि इदानीं किञ्चित् अग्रे गच्छामः किं सरलाभग्नि अग्रे गच्छति वा स्वकर्मणां परिणामः भवति इति प्रकृतिनियमस्य अपि मानवतायाः हिताय किञ्चित् प्रयोजनं भवेत् प्रत्येकं जीवात्मा मुक्तिं प्राप्तुं समर्थः भवेत् इति उद्देश उद्देशेन एव समग्रसृष्टिः जाता एतत एव सगुणब्रह्मण महुत् महत् उद्देश्यम् सृष्टेः आनयने अतः तत् सगुणब्रह्म महत् उपकारी इति एव वक्तुं शक्यते यद्यपि तत् सगुणब्रह्म ब्रह्म मुक्तं वर्तते तथापि प्रत्येकं जीवात्मनः हिताय प्रकृतिप्रभावे आगतम् केवलं मानवहिताय एव कर्मफलम् अथवा स्वकर्मणां परिणामानां वहनम् इति अतीत अतीवकठोरनियमः कृतः किमर्थं चेत् एतेन एव नियमेन भगवान् मनुष्यान् दुष्टकर्म निवारयित्वा मुक्तिं प्रति च नयति ईश्वरः दुष्टकर्मसु प्रवर्तयितुम् मनुष्यान् शिक्षयति पर, परन्तु मनुष्याः स्वेषाम् अज्ञानात् दुःखम् शोकं च प्रदानार्थं केवलम् ईश्वरम् एव दोषयन्ति ईश्वरे दोष दोषार् आरोपणं पक्षपातार्थ निर् निर्दयार्थः निर्दयार्थं दुःखं शोकं च प्रदानार्थम् अथवा प्रार्थना चाटुवचनं च चा दुःखनिवृत्ति अर्थम् इति एते मार्गाः सम्यक् न सन्ति अतः न आश्रय आश्रयणीयाः ज्ञानिनः दुःखं शोकं च पाठरूपेण स्वीकुर्वन् कुर्वन्ति एक पाठन ईश्वर यहां उपकारी अस्सी सह ज्ञा दुष्टकमृत्ति निवृत्ति बोधयतीवेकती अतः दुष्टकर्म निवृत्ति ज्ञाना कर्म प्रत्येक मनुष्य कर्तव्य अस्त उपरि गच्छ इति वयम् उपरि अपि दृष्टवन्तः प्रत्येक प्रत्येके प्रत्येकजीव स्व स्वस्वकर्मणा यत् परिणामं भवति तस्य कर्मफल सः एव भो आ, सह एव भुङ्क्ते भुङ्क्ते स एव भुङ्क्ते न न कोऽपि अन्येषां कर्मफल प्राप्तुं प्राप् प्राप्नो प्राप्नुवन्ति न कोऽपि न कोऽपि अन्य प्राप्नु शक् इति अस्ति यदि अस्माभिः अस्माकं यत् कर्मफल भोक्तव्यं भवति तत्र इति यत् नियमः अस्ति तु इत्यस्य तस्मात् कथं बहिः आगच्छामः इत्यस्य प्रयोजनं किम् तो यत् वयं मानवजीवनं कथं प्रचला प्रचलामः इत्यस्य अस्माभिः ज्ञानं इति आवश्यकं भवति यदि ज्ञानम् अविद्या यदि विद्या आगच्छति अविद्यास्य नाशः भवति कथं भवति यथा वयं दृष्टवन्तः पूर्वं परमात्मनः प्रति प्रीतिः भवेत् यदि परमात्मा प्रसमं तु इति ज्ञातव्यं भवति परमात्मा एक अस्माकम् आधारः अस्ति परमात्मनः आश्रितः वयं सर्वे स्मः अपि तु तत्र जीवन्मुक्ति यदि वयम् इच्छामः तत् परमात्मनः एव शरणं गच्छामः किन्तु इति यत् अस्ति इत्यस्य अन्यत् अपि अस्माभिः प्रयत्नं कर्तव्यं तो ते प्रयत्नाः के सन्ति इति अस्माकं यत् प्रकृति प्रकृतिः अस्ति तत् प्रकृति अनुगुणम् अस्माकं सर्वेषां हिताय कृते अपि कर्म करणीयम् अथवा सेवा करणीयं मानवहिताय अस्माकं चिन्तनं भवेत् इति न केवलं परमात्मा स्तुति गीतं गीतं गीयते तत् तस्मात् इति कोऽपि फलं न भवति किन्तु स्वस्य जीवने परोपकारस्य भावनानीतव्यम् इति यदि भवति तो परमात्मा अस्माभिः स्वस्य प्रति आकर्षणं करोति अस्माकं प्रयासस्य अपि उत्साहनं करोति यथा वयम् इदानीं भवती उक्तवती यदि परमात्मा केन्द्रे अस्ति यदि विद्या माया अस्ति विद्या विद्यया वयं परमात्मकेन्द्रे प्रति गच्छामः यदि अविद्या आ, अविद्यया च अविद्यया अस्माकं व्यवहारं भवति तु वयं केन्द्र केन्द्रात् दूरी गच्छामः इति तद्यदि अज्ञाने वयम प्रभाव आ, अज्ञानस्य प्रभावे आगच्छामः तत्र दुःख शोकम् अपि सृष्टेः चक्रे भ्रमणचक्रे भवामः तस्मात् वयं कदापि बहिः न आगच्छतुं शक्नुमः पशुजीवनम् एव अस्माकं भवति यदि अतः वयं किं करोम कुर्मः यदि अस्माकं जीवने कोऽपि दुःखं वा कष्टम् आगच्छति तत्र ईश्वरं प्रति दोषान् ददामः ईश्वरस्य निन्दा कुर्मः स्वस्य कोऽपि इति स्वस्य वयं स्वयमेव कारणमस्ति यत् अस्माकं दुःखमस्ति वयं पूर्वं दृष्टवन्तः कर्मफल कथं यत् ये ये कर्माणि सन्ति तस्य आधारेण तेषाम् आधारेण एव अस्माकं जीवनस्य यत् भागं भाग्य भवति इति भवति तस्य आधारेण सुखं या दुःखम् आगच्छति अस्माकं जीवने तस्य निवृत्ति अर्थं यत् पूजापाठं वा यज्ञं कि यथा अत्र दत्तमति चाटुवचनम् इति इति कोऽपि तस्मात् दस, कोऽपि लाभः भवति के यदि वयं स्वस्य ज्ञानचक्षुः जागृतं कुर्मः तदानीमेव अस्माभिः इति आगच्छति अग्रे कथम् आध्यात्मिकजीवने अग्रगति प्रति चलनीयम् इत्यस्य परोपकार करणीयं सेवाभावः आनीतमम् आनेतव्यं योगनिष्ठजीवनस्य यत् अङ्गानि सन्ति तस्य पालनं करणीयं साधना करणीयमिति अस्माकं यदि ती विवेक विवेकजागृतः भवति तदानीम् एव वयं मनुष्यजीवने स्वस्य जीवनं आं भगिनि समीचीनमस्ति सा अयं तदेव अत्र विषयः अस्ति इत्युक्ते वयं सर्वे अस्मिन् जगति छात्राः वयं स्मः वयं वयं जगति वयं किमर्थम् आयामः मा, आगच्छामः इति चेत् तत्र यतोहि पूर्वजन्मनि यद् अस्माभिः ज्ञातव्यं तत् सम्पूर्णतया न ज्ञातम् इदानीं पुनः अत्र आगच्छामः पूर्वं यद् यः दोषः कृतः तादृशदोषस्य परिहारः अत्र इदानीम् अस्मिन् जन्मनि भवति इत्युक्ते तत्र पूर्वं यद् अग् अध्न, यद् अज्ञातं तस्य ज्ञानम् इदानीं भवति इत्युक्ते तत्र तस्य वास्तविक अर्थः यताव, इति चेत् अस्माकं हृदि परमात्मा प्रति प्रीतिभावः एताव एतावता न जागरितः भवतु इति कृत्वा एव अस्माकं पुनर्जन्म भवति यद् पूर्वं न प्राप्तं तत् तत् प्राप्तव्यं तत्र मनसि परमात्मानं प्रति हृदि परमात्मानं प्रति प्रीतिभावः भक्तिभावः एतावता न वर्धितः तादृशवर्धनं भवतु इति कृत्वा एव अस्माकं पुनर्जन्म भवति यावत्पर्यन्तं तादृशप्रीतिभावः जागरितः न भवति तावत्पर्यन्तम् अस्माकं जन्म पुनः पुनः पुनः पुनः भवति तर्हि यः धीरः अस्ति यः बुद्धिमान् अस्ति सः जानाति यद् Uh, इदं जगत किमर्तम, निर्मितम इति चेत् परमात्मा इच्छति यद् सर्वेषां कल्याणं भवतु सर्वेषां हितं भवतु परमात्मा हितकारी वर्तते कल्याणकारी वर्तते सर्वजनकल्याणकारी वर्तते तर्हि तत्र सर्वे सर्वेषां परमात्मना सह ऐक्यं भवतु इति एव तस्य लक्ष्यमस्ति परमात्मनः लक्ष्यमस्ति तदर्थमेव इदं अयं विश्वः निर्मितः अस्ति तदर्थमेव तत्र सर्वे तत्र तादृशव्यवस्था अपि कृता अस्ति तत्र स्थितिचक्रे तत्र क्रमेण तत्र जीवानां वर्धनं भवतु इति परन्तु सामान्यतया मनुष्याः किं चिन्तयन्ति इति चेत् अत्र जगत् जगति अन्यायं वर्तते परमात्मा मम मम मम कृते अन्यायं परमात्मना कृतम् इति एवं रीत्या ते चिन्तयन्ति इति एवं रीत्या चिन्तनेन तेषाम् अग्रगतिः कदापि न भवति यतोहि तेषां कृपि संशयः वर्तते परमात्मा अस्ति वा न वा परमात्मना दोषः कृतः इत्येवं रीत्या संशयः एवं रीत्या दोषारोपणं सार, दो वर्तते तदानीं तेषाम् अग्रगतिः न भवति, भवति। न भवति जगति अन्यायं नास्ति इति न वदति अस्मिन् परिच्छेदे जगति अन्यायम् अस्ति चेत् अस्माभिः सङ्घर्षः करणीयः तत्र नास्ति संशयः जगति अन्यायम् अस्ति चेत् अन्यायं भवतु अहमेवमेव पश्यामि इति नास्ति तर्हि अस्माकम् अग्रगति अग्रगत्यर्थं सेवा अपि करणीया तत्र क्षत्रियोचित् सेवा वा भवतु विप्रोचित् सेवा सेवा भवतु वैश्रोचित् सेवा भवतु शूद्रोचित् सेवा भवतु यत्किमपि भवतु तत् अस्माभिः करणीया सेवा करणीया परन्तु तत्र यदि तत्र प्रकृतेः नियमानुगुणं वयं वे व्यवहारं न कुर्मः अस्माकं मनसि परमात्मनः प्रतिबिम्बस्य वर्धनार्थं साधनां न कुर्मः तावत्पर्यन्तम् अग्रगतिः न भवति तावत्पर्यन्तं मनः अधोभागे पतति तर्हि पुनः अग्रिमजन्मनि अस्माकं जन्म क्षितितत्वेन वा भवतु अथवा पशुपक्षिरूपेण वा भवतु भवति अतः तत्र अस्माभिः सङ्घर्षः करणीयः सङ्घर्षः क्रियते चेदेव अग्रगतिः भवति सङ्घर्षः सङ्घर्षं न कुर्मः तदानीं तत्र सर्वं तु संस्कारानुगुणं प्रचलति अतः अहं भोगं करोमि इति चेत् तत्र अग्रगतिः न भवति संस्कारस्य नाशार्थम् प्रयासः करणीयः अग्रगतिं अग्रगतिः प्राप्तव्या इति तत्र जगति यत्किमपि जायते तत्तु परमात्मनः इच्छानुगुणमेव जायते तर्हि जगति अन्यायं जायते जायते चेदपि वयम् अस्माकं दृष्ट्या अन्यायमेव भासते परन्तु परमात्मा जानाति तत्र कार्यं किं कारणं किं किमर्थम् एवं जातम् इति सः जानाति इत्युक्ते पूर्वं किमपि स्यात् किमपि कारणं स्यात् येन कारणेन एतादृश अन्याय अन्यायम् इदानीं अन्यायः जायमानः अस्ति वयं न जानीमः वयं सर्वं न जानीमः सः एव सर्वं जानाति तर्हि वयं दूरतः वयं पश्यामः वयं वदामः ओ जगति बहु अन्यायं अन्यायं जायते इति वयं वदामः तत्र सम्पूर्णसमग्रचित्रं वयं न जानीमः सः एव सर्वज्ञः सः एव सर्वं जानाति तेन पूर्णव्यवस्था तेन कृता येन सर्वेषाम् अग्रगतिः अवश्यमेव भवति तर्हि तत्र अत्र ये ये जीवाः सन्ति प्रत्येकं जीवस्य भिन्नभिन्नस्तराः सन्ति तत्र सृष्टिचक्रे कुत्र ते स्त सन्ति इति वयं न जानीमः खलु तदनुगुणं ते व्यवहारं कुर्वन्ति तदनुगुणं ते फलमपि तदनु प्राप्नुवन्ति अग्रे अग्रे, पु, अग्रे पुनः यदा जन्म जन्म भविष्यति तदानीं तत् तस्य फलमपि ते प्राप्नुवन्ति अतः कुत्र किं जायते तद् न्यायं वा अन्यायं वा इति विषये वयं तु वक्तुं न शक्नुमः अतः ये जनाः प्रकृतेः नियमानां पालनं न कुर्वन्ति साधनं न कुर्वन्ति तेषां तु पुनः जन्म अवश्यमेव भवन्ति वयं सर्वे अत्र भ्रातरः स्मः अस्माकं अस्मा सर्वेषाम् अग्रगतिः भवतु इति एव परमात्मा इच्छति अस्माकं सर्वेषां मनः वर्धितं भवतु इत्येव सः इच्छति तदर्थम् अस्माभिः प्रयासः करणीयः आत्ममोक्षार्थं जगत् च अस्माभिः प्रयासः करणीयः केवलं परमात्मनः उपरि दोषारोपणेन न कोऽपि लाभः परमात्मा तु तत्र हितकारी अस्ति सर्वेषाम् उपकारी एव अस्ति सः सर्वं जानाति अतः तस्य उपरि दोषारो दोषारोपणं समीचीनं नास्ति तेन अग्रगतिः कदापि न भवति तेन अस्माकं दुश् तत्र संस्काराणां नाशः तु कदापि न भवति इति अत्र अस्मिन् करपत्रे बहु किमपि अस्माभिः चर्चितं कथम् अस्माकम् अग्रगतिः भवितुमर्हति तत्र प्रकृतेः नियमानुगुणं पालनं भवेत् अनन्तरं तत्र साधना अपि करणीया इति विषये अस्माभिः बहु किमपि चर्चितम् इति इदं करपत्रम् अत्र समाप्तम् इतः अग्रे अत्र नूतनकरपत्रं तर्हि एतावता कोऽपि संशयः अस्ति वा किमपि वक्तव्यं वा भगिनि भवती साधना साधना भव साधना किम् इति तत् कदापि न वदति किम् साधना इति किं साधना इत्युक्ते साधना इति एका पद्धति भगिनी तदर्थं तत्र शिबिरे आगच्छति चेदेव तत्र साधना का इति ज्ञातुं शक्नोति अत्र करपत्रे वयं लेखितुं न शक्नुमः साधना का इति साधना गुप्तरूपेण तत्र तत्र मुखतः साक्षात् प्रत्यक्षरूपेण दीयते अतः साधना का इति तत्र अत्र वर्गे वक्तुं न शक्नोमि गुप्तरूपेण साधनायाः पद्धति का इति अत्र ये जनाः शिबिरे आगच्छन्ति तेषां तु साधनायाः बोधः अवश्यं भवति तत्र सुचित्रा भगिनी आगतं स स सा जानाति साधना का इति तर्हि साधना इस् द टेक्निक् आफ़् मेडिटेशन् तद कतम कतम करणीय द कंटेप्लेटिव प्रोसेस इज माय मेडिटेटिव या इट्स अ इट्स अ प्रोसेस ऑफ मेडिटेशन यू सिट इन इट्स सिट इन पद्मासना एंड व्हाट इज दैट प्रोसेस ऑफ कंसंट्रेटिंग ऑन दैट परमपुरुषा इज इज टॉट इज टॉट डायरेक्टली द टीचर ओके जस्ट दैट आई वांटेड टू नो दैट व्हाट यू मीन बाय दैट साधना दैट बैक कंटेप्लेटिव मेडिटेशन या द इंट्यूशनल प्रैक्टिस इंट्यूशनल प्रैक्टिस ah uh, yeah are so many different types of meditations are there okay yeah yeah mm -hmm. yeah okay tarhi va nim kincit agre gachama ha ha bagini to the question hasti ah itana se kim api labha bhavativa tasya itana itana paddhati sampikalu janaha apamam okay, yeah, yeah. Mm -hmm. yeah. okay. अस्ति आमां कीर्तनेन बहु लाभः अस्ति साधनाया बहु लाभः अस्ति कीर्तनं यदा वयं कुर्मः तदानीं तत्र किं भवति चेत् मनसि रसः उत्पद्यते यदा रसः उत्पद्यते तदनन्तरं साधनां कुर्मः चेत् तत्र साधनायां मनः लग्नं भवति यतोहि तत्र प्रतिदिनं वयं बहु किं बहु कुर्मः खलु तत्र बहवः विषयाः लौकिकविषयाः सन्ति तत्र एव अस्माकं ध्यानं भवति एतत् कुर्म, तत् कुर्मः इति बहु किमपि कुर्मः तदानीं तत्सर्वं कृत्वा यदा साधनां साधनं कर्तुम् उपविशामः तदानीं मनः इतः ततः बहुत्र गच्छति अतः तत्र कीर्तनस्य अपि बहु प्राधान्यं वर्तते तस्य विषये अपि महोदय अनन्तरं कदाचित् वक्ष्यति परन्तु यदा कीर्तनं कुर्मः तर्हि नामस्मरणं कुर्मः कीर्तनं कुर्मः तदानीं तत्र किं भवति इति चेत् मनसि रसः उत्पद्यते रसः उत्पद्यते चेत् मनः किञ्चित् लौकिकविषयात् मनः मनसि एकाग्रता आयाति तदनन्तरं साधनां कुर्मः चेत् तत्र अवश्यमेव तत्र मनस् मनः मनसि एकाग्रता भवति अपि च रसः उत्पद्यते प्रीतिभावः उत्पद्यते मनसि अस्तु वा भगिनि धन्यवादः ओके okay. तर्हि इदानीम् अस्माकम् अग्रिमकरपत्रमस्ति मानवतायाः लक्ष्यं किम् इति तद् इदानीं पट पत, पठामः दृश्यते वा इदानीं यस् तर्हि सुचित्रा भग्नि पठतु सृष्टेः रहस्यस्य प्रकाशनेन ज्ञायते यत् सगुणब्रह्मा स्वस्य प्रत्येकं जीवात्मनः मुक्त्यर्थं जगतः सृष्टिं करोति शगुणब्रह्म एकैकेषु जीवात्मस्सु स्वस्य सूक्ष्मतमम् आत्मनम् आत्मानं, आत्मानं विभक्तुम् एव स्थूलतमम् इति तत्त्वरूपं एतद् दर्शयति सगुणब्रह्मा अनन्तज्ञातृसत्ता वर्तते इति तद्ब्रह्म सूक्ष्मत्वात् एकैकेषु जीवात्मसु विभक्तुं न शक्यते सृष्टिः केवलम् अनन्तज्ञातृसत्तायाः ब्रह्मणः कल्पना एव वर्तते अस्यां कल्पनायां ब्रह्मणा स्वयमेव अनेकेषु भागेषु विभक्तम् इति कल्पयति सृष्टिः एतदपि दर्शयति यत् एषः कल्पनायाः विचारतरङ्गः ब्रह्मणि एव उत्पद्यते ब्रह्मणि एव पुनः विलीयते मानवता च अस्य विचारतरङ्गस्य चरमस्तरे वर्तते अतः ब्रह्मणः विचारतर विचारतरङ्गक्रमे मनुष्याः सूक्ष्मे सगुणब्रह्मणि गुणयुक्तचैतन्ये सगुणब्रह्मणि सद्य वा अनन्तरं वा संयोगं प्राप्नुयुः सगुणब्रह्म अनन्तं सूक्ष्मं च वर्तते इत्यतः ब्रह्मणा सह संयोगप्राप्त्यन्त प्राप्ति अनन्तरं मनुष्याणां पृथगस्तित्वं सूक्ष्मव्यक्तित्वरूपेणापि पे स्थातुं न शक्यन् शक्नोति सदृशम् आदात् आदात्म्यद्वयं न भवितुम् अर्हति यत्र एकः तु अनन्तः वर्तते अतः ब्रह्मणा सह संयोगानन्तरं मनुष्याः एव सगुणब्रह्मणि भवति उदाहरणरूपेण वयं जलस्य एकं बिन्दुं स्वीकर्तुं शक्नुमः तद्बिन्दुरूपेण विद्यमानस्य जलस्य यदा चषके विद्यमानेन जलेन सह मिश्रीक्रियते तदा स्वस्य बिन्दुरूपेण अस्तित्वं सम्पूर्णतया जहाति चषकस्य जलेन सह ऐक्यं प्राप्नोति तथैव च व्यक्तिः विन्दुवत् स्वस्य व्यक्तिगतपरिचयं सर्वथा जहाति यदा अनन्त अनन्तेन पुरुष परमपुरुषेण सह विलीनं भवति अत्र सृष्टेः यदा यदा सगुणब्रह्म सृष्टेः कल्पनां कृतम् आस् अस्ति तत्र सः एकैकजीवात्मनः एक अपि पुनः मुक्त्यार्थमपि चिन्तितवान् आसीत् अतः एव सः एतद् सृष्ट तेः कल्पना कृतम् अस्ति सगुणब्रह्मणः यादृशं सः विमुक् मुक्तात्मा अस्ति तादृशं सः अस्य एकमेकं जीवात्मनः तेषामपि सः मुक्तिम् इच्छति एव परन्तु सूक्ष्मतः कथं विभक्तयितुं तेषां पृथग् अस्तित्वं कथं दातुं शक्यते अतः एव सः भूत्वा चितितत्त्वरूपं स्वीकृतवान् अस्ति एव जीवात्मनः पृथग्रूपेण विभक्तयितुं शक्यते अतः एतादृशं यदा वयं पश्यामः तत्र एक विषयः आयाति सगुणब्रह्मः तु तस्य अनन्तज्ञातृसत्ता इति वर्तते सः सर्वं जानाति तस्य मनसि या चिन्तनं वर्तते तत्तु तस्य परिधिः बहु बृहदैव अस्ति तद् ब्रह्म अतः स्वस्य कल्पना यः यदा सः सृष्टेः कल्पना कृतमासीत् अतः एव सः सञ्चरधारा प्रतिसञ्चरधारा अपि निर्मितम् आसीत् एतादृश यदा वयं जानीमः सृष्टेः कल्पना कथम् अभवत् चेत् एतत्तु श्रगुणब्रह्मणि मनसि भूमा मनसि यद् कल्पना आसीत् तस्य विचारतरङ्गः भूत्वा एव इदानीं सृष्टेः स्थितिः अस्ति एकं दूरदृष्ट्या पश्यामः चेत् यद् अस्माकं स्थितिः अस्ति सृष्टेः स्थितिः अस्ति तत्तु केवलं सगुणब्रह्मणि कल्पनायाम् एव तद् कल्पनायाः विच तत्र विचारतरङ्गः अपि जायाति पुनः तस्य लयमपि तत्र भवति एतादृशं कल्पनायाः सृष्टेः यदा तत्र मनुष्यस्य यदा मानवधर्म मनुष्यस्य सृष्टिः अभवत् तत्र तद्विचारतरङ्गस्य चरमस्तरः आ, इत्युक्ते ततः परं किमपि उत्कृष्टजीवं नास्ति मनुष्यः एव उत्कृष्टतमम् अस्ति सृष्टेः सृष्टेः तत्र मनुष्यस्य कृते एव तादृशः विवेकः अस्ति तेन सह सूक्ष्मसत्ता इति किं तद् ज्ञातुं प्रयासं कर्तुं शक्नोति अनन्तरं ततः तेन सह ऐक्यमपि प्राप्तुं शक्नोति अतः एव मनुष्य नरजन्मदुर्लभम् इति वदामः प्रायेण अतः यद् सगुणब्रह्मः सूक्ष्मसत्तां वर्तते संयोगं प्राप्तुं ये मनुष्याः तेन सह संयोगं प्राप्तुम् इच्छन्ति ते पुनः तेषाम् एक वैयक्तिकरूपेण स्थितिः स्थापयितुं न शक्नोति तत्तु ऐक्यम् तत्र एकः एव स्थितिः एकस्य एव स्थितिः वर्तते न तु अनेकान् अतः ब्रह्मणा सह यदा संयोगः भवति तद् तदनन्तरं किमपि वैयक्तिकस्थितिः जीवात्मरः न यदा उदाहरणमस्ति एकं जलस्य बिन्दु स्वीकुर्मः पुनः तत्र एक जलधारारूपेण वा चषकेन जलम् अस्ति चेत् तेन तत्र एतत् जलबिन्दुं स्थापयामः चेत् तत्र पुनः जलबिन्दु यदस्ति तस्य किमपि पृथक् स्थितिः न वर्तते सः तु सम्पूर्णतया तत्र एकीकरणं भवति तत्र जलेन स चषकस्य जलेन सह एकीकरणं भवति पुनः तस्य किमपि भिन्नरीत्या स्थितिः भवति यदा उदाहरणमपि वर्तते नद्याः संयोगः समुद्रेण सह भवति चेत् नद्याः किमपि पुनः पृथक् अस्तित्वं न भवति सः समुद्रेण सह ऐक्यं प्राप्नोति तदनन्तरं केवलं समुद्रमेव तत्र भवति न नदी अनन्तरं समुद्रं तादृशपृथक् स्थितिः न भवति तथैव भगिनी हा हा समीचीनं भगिनी सम्यक् अस्ति अत्र बहु किमपि उक्तमस्ति अस्मिन् परिच्छेदे तर्हि आरम्भतः वयं वदामः किं वदामः तत्र मनुष्येषु अनन्तेषणा वर्तते या एषा सीमितवस्तुभ्यः पूरिता न भवति इति अस्माभिः उक्तं तादृश अनन्तसत्ता एका वर्तते अनन्तसत्ता आ, एका एव वर्तते यदि सत्ताद्वयम् अनन्तम् इति वयं वदामः चेत् तदानीं तत्र द्वयमपि अनन्तं न भवितुम् अर्हति एका एव सत्ता अनन् अनन्ता भवितुम् अर्हति तर्हि तत्र तत्र यदि मनुष्यः परमात्मना सह ऐक्यं तत्र अनन्तसत्ता सत् सप्तया सह ऐक्यं प्राप्तुम् इच्छा इच्छति तर्हि अनन्तसत्ता का इति अस्माभिः ज्ञातव्या तर्हि तत्र यदा तत्र प्रकृतिः यदा पुरुषः अनुमतिं ददाति तदानीं प्रकृतेः गुणानां प्रभावः भवति तर्हि तत्र परमपुरुषः परमपुरुषः केन्द्रे अस्ति हे प्रभावस्य परिणामेन सः एव जगत्रूपेण दृश्यते तर्हि अत्र एतत्तु कार्यगारण भाव् भावं कार्य कार्यकारणभावम् अतिरिच्ये वर्तते एतद् तर्हि किम किमर्थं जगतः सृष्टिः जाता इति केनापि वक्तुं न शक्यते तत्र परमात्मनि तत्र इच्छा जागरिता यद् अहम् एकोऽस्मि बहुस्याम् इति इच्छा जागरिता तदर्थं सः प्रकृतिं प्रति अनुमतिं ददाति अपि सृष्टिः प्रचलति एतत् सर्वं परमात्मनः लीला अस्ति अस्मिन् अस्मिन् अस्यां लीलायां वयं सर्वे अस्माकम् अस्माकं पात्रं वर्तते तादृ तादृशपात्रस्य वयं पूर्तिं कुर्मः खलु तेन एव सर्वं निर्मितं तदर्थमेव स्थूलीकरणं जायते सः एव प्रकृतेः प्रभावेन स्थूली स्थूलीभूतरूपं सः एव प्राप्नोति तर्हि तर सः एव सुलीभूतरूपं प्राप्नोति सञ्चरधारायां तत्र द्वादशवादनात् षड्वादनपर्यन्तं तर्हि पुनः सः एव तत्र प्रतिसञ्चरधारायां सः एव प्रकृतेः प्रभावात् तत्र विमुक्तः विमुक्तः सन् तत्र सूक्ष्मरूपमपि प्राप्य अन्ततो गत्वा द्वादशवादने तत्र सूक्ष्ममूलावस्थां प्राप्नोति स एव पुरुषः तर्हि एतत् सर्वं तस्य एव परमात्मनः एव व्यवस्था वर्तते तर्हि द्वादव त्रिवादनपर्यन्तं तत्र भूमामनसः निर्माणं भवति प्रकृतेः गुणानां प्रभावेन तत्र अहं तत् महत्तत्त्वम् अहं तत्त्वं चित्तम् इति मनसः भूममनसः त्रयः अंशाः निर्मिताः भवन्ति तर्हि अन्ततो गत्वा एतत् सर्वं तु परमात्मनः कल्पना एव वर्तते तस्य भूमामनसि सृष्टिः तु कल्पना वर्तते खलु तर्हि अन्ततो गत्वा अस्मिन् जगति यत्किमपि अस्ति तत्तु तत्र मूलसामग्री अस्ति परमात्मा एव मूलसामग्री अस्ति अतः यद् सू, तत्र स्थूलभूतं क्षितितत्त्वं यद्वर्तते तदपि परमात्मा एव अस्ति तर्हि अस्माकं पुरतः यत् जगत् वर्तते तद् जगत् तु परमात्मनः कल्पनायामेव अस्ति तर्हि यद्यपि कल्पनायाम् अस्ति तथापि तत्र तत्र सापेक्षिकसत्यत्वं वर्तते जगन्मिथ्या इति वयं वक्तुं न शक्नुमः परिदृश्यमाणं जगत् अस्माकं पुरतः अस्ति यद्यपि कल्पनायाम् अस्ति परन्तु कल्पना तु जायमाना अस्ति अतः जगतः सापेक्षिकसत्यत्वं वर्तते मनुष्याः रात्रौ शयनं कुर्वन्ति य तत्र तर्हि तत्र तेषां यदा कल्पना स्वप्नः भवति तादृशस्वप्नम् अन्ये न पश्यन्ति यद्यपि स्वप्नम् इति वयं वदामः परन्तु स्वप्ने तत्र बहवः बहूनि सन्ति खलु स्वप् एवं रीत्या परमात्मनः मनसि स्वप्नः जायते स्वप्ने बह बहवः बहूनि पात्राणि सन्ति तथापि तत्र कल्पनायां कल्पना तु अस्ति कल्पना तु अस्ति इति एवं रीत्या तत्र अत्मास्माकं परिदृश्यमानं जगत् जगतः सापेक्षिक परिदृश्यमानजगतः सापेक्षिकसत्यत्वं वर्तते जगन्विद्या इति तु वयं न वक्तुं शक्नुमः परमात्मा विभिन्नरूपेण विभागं कृत्वा तत्र क्षितितत्त्वपर्यन्तम् आयाति तदनन्तरं यदा अनुकूलवातावरणं वर्तते तदानीं क्षितितत्वात् जीवस्य आविर्भावः भवति सर्वं तत्र क्रमेण सर्वं क्रमेण भवति विकासः क्रमेण भवति पुनः तत्र प्रतिसञ्चर्धारायां पुनर्गमनमपि क्रमेण एव भवति तर्हि तत्र दशवादने एव मनुष्याणाम् आविर्भावः भवति मनुष्याणाम् आविर्भावः यदा भवति तेषां लक्ष्यं किं मानवतायाः लक्ष्यं किं यदा ते जन्म प्राप्नुवन्ति मनुष्याः जन्म प्राप्नुवन्ति तेषां धर्म धर्मः कः तेषु विलक्षणः धर्मः कः किमर्थं मनुष्याणाम् आविर्भावः तत्र पशूनाम् आविर्भावः जातः तदनन्तरं किमर्थं मनुष्याणाम् आविर्भावः यतोहि तेषु तादृशधर्मः अस्ति यः धर्मः अन्येषु प्राणिषु न वर्तते परमात्मा इच्छति क्रमेण तत्र सत्त्वगुणस्य प्राधान्यं भवति क्रमेण तेषाम् अग्रगतिः अभूत्वा भ्रह्मणा ऐक्यं भवतु इति एव परमात्मनः लक्ष्यं खलु तर्हि तत्र तत्र सगुणब्रह्मणः निर्गुणब्रह्मणः यत्र सेतुः वर्तते सः एव अस्ति तत्र तारकब्रह्म तारकब्रह्म तारकब्रह्म तारकब्रह्म एव अस्माकं मार्गं प्रदर्शयति अस्माकं मार्गं प्रदर्शयति यदि वयं यौगनस्य जीवनस्य पालनं कुर्मः साधनां कुर्मः तदानीं तत्र मनः वर्धते तत्र मनः वर्धते मनः वर्धते चेत् तर्हि परमात्मनि ये गुणाः सन्ति तेषां गुणानाम् अस्माकं मनसि अपि आविर्भावः भवति मनः वर्धते मनः सूक्ष्मं भवति मनः सूक्ष्मं भवति चेत् तदानीं यदा सूक्ष्मं सूक्ष्मं सूक्ष्मं भवति तदानीं परमात्मना सः ऐक्यं प्राप्नोति यता जलबिन्दुः तत्र समुद्रे पतति चेत् तत्र बिन्दुः कः आसीत् इति वयं न ज्ञातुं शक्नुमः यथा तत्र समुद्रेण सह ऐक्यं प्राप्नोति अथवा लवणं वयं पातयामः समुद्रे चेत् तत्र लवणं पृथक्तया तस्य अस्तित्वं न भवति रीत्या तत्र यदा साधनाद्वारा परमात्मना सह ऐक्यं प्राप्नुमः तदानीम् अस्माकं पृथक् प्रित, अस्तित्वं न भवति इति अत्र अत्र अस्मिन् करपत्रे यद् शीर्षकं वर्तते तस्य विषये अत्र उक्तमस्ति तर्हि तत्र किं तीव्ररीत्या यदा साधनां कुर्मः तदानीमेव मनः तत्र भू भु, प्रथमतया भूमा मनसा ऐक्यं यदा प्राप्नोति तदानीं तत्तु वयं वदामः समाधिः इति सविकल्पसमाधिः इति वयं वदामः यदा निर्गुणभ्रमणा सः ऐक्यं प्राप्नोति तदानीं निर्विकल्पसमाधिः इति वयं वदामः इति उभयत्र पुनर्जन्म न भवति इति अत्र अत्र, अत्र उक्तमस्ति कोऽपि किमपि वक्तुमिच्छति वा निर्विकल्पसमाधिः इत्युक्ते किं निर्विकल्पसमाधिः इत्युक्ते किम् इति चेत् तत्र मनः अपि नास्ति निर्विकल्पसमाधौ मनः परमात्मनि विलीनं भवति तदानीं जीवात्मा परमात्मना सह ऐक्यं प्राप्नोति स्वविकल्पसमाधौ किं भवति इति चेत् समाधौ अस्माकं मनः भूममनसा सह ऐक्यं प्राप्नोति तदानीं तदानीमपि मनः वर्तते तत्र भूममनसा सह ऐक्यं प्राप्नोति मनः वर्तते तत्र स्वविकल्पसमाधिः इति वयं वदामः स्वविकल्पसमाधौ अपि पुनर्जन्म न भवति यतोहि अस्माकं मनः तु अंशः एव पुनः तत्रैव यदा विलीनं प्राप्नोति तत्तु स्वविकल्पसमाधिः इति वदामः परन्तु तत्र मनसि पृथक् अस्तित्वं नास्ति नास्ति भूममनसः तस्य ऐक्यं भवति आ, हा अस्तु एतत् मुक्तिमोक्षं तादृशं वा मुक्तिमोक्षः तदेव मुक्तिमोक्षः मुक्तिः इति स्वविकल्पसमाधिः मोक्षः इति निर्विकल्पसमाधिः यदि मरणसमये यदा भवति तत्तु मुक्तिमोक्षः इति वयं वदामः यदा साधनं कृत्वा वयं प्राप्नुमः एतादृशावस्थां तत्तु स्वविकल्पसमाधिः निर्विकल्पसमाधिः इति अस्तु स्वशरीरे यदा तादृशम् अनुभूतिः भवति तद् नाम समाधिः वा साधनां कृत्वा यदा समाधिं प्राप्नुमः तत्र निर्विकल्पसमाधिः स्वविकल्पसमाधिः भवितुमर्हति मरणसमये यदा तत्र मुक्तिमोक्षः भवति समीचीनं तर्हि अत्र स्थगनं कुर्मः धन्यवादः भगिनि यत् भवती उक्तवती यथा परमात्मा के केन्द्रे अस्ति प्राणशक्ति यद् अविद्या माया तत् किं शब्दं भवति उक्तवती केन्द्रानुगा अन्यं किमस्ति केन्द्रतिगा केन्द्रतिगा केन्द्रतिगा इत्युक्ते केन्द्रम् अतिरिच्य गमनं केन्द्रतिगा अस्तु इत्युक्ते केन्द्र साम्यावस्था वर्तते केन्द्रे यदा गुणानां प्रभावः भवति तदानीं केन्द्रम् अतिरिच्य गमनं एव केन्द्रातीगा शक्तिः केन्द्रप्रतिगमनं केन्द्रप्रतिगमनं केन्द्रानुगासक्ति केन्द्रप्रतिगमनम् अस्तु धन्यवाद धन्यवादः नमस्कारः